कृष्णयजुर्वेदे क्रमपाठे सप्तमकाण्डे तृतीयः पृष्टः प्रारम्भः ॐ प्रजवम् वै प्रजवमिति प्राजम् वावेतेन एतेन यन्ति यन्ति यत् यद्दशमम् दशममहः अहः पापावहीम् पापावहीयम् भवन्ति भवन्ति यत् यद्दशमम् अहर्यः यो वै वै प्रजवम् प्रजवैन्यताम् प्रजवप्रजवम् यतामपथेन अपथेन प्रतिपद्यते प्रतिपद्यते यः प्रतिपद्यते प्रतिपद्यते यः स्थाणुम् स्थाणगम्हन्ति हन्त्यः यो भ्रेषम् भ्रेषम् नेति एति सः नेतीति नीयेति यो वै वै दशमे दशमे हन् अहन्नविवाक्ये अविवाक्य उपहन्यते अविवाक्यै इत्यविवाके उपहन्यते सः उपहन्यत इत्युपहन्यते सहीयते हीयते तस्मै तस्मै यः य उपहताय उपहतायव्याह उपहतायत्युपाहताय याहतम् रभेत् आरभ्य समश्नते अश्नतेथ अथयः यो व्याह व्याहसः व्याहेति वीराह स हीयते हीयते तस्मात् तस्माद्दशमे दशमेहन् अहम् अविवाक्य उपहदाय अविवाक्येत्यविवाक्ये उपहदाय न उपहदायेत्युपहदाय न उच्यम् अथो खलु खल्वाहुः आधुर्यज्ञस्य यज्ञस्य वै वै समृद्धेन समृद्धेन देवाः समृद्धेनेति समृद्धेन देवाः स्वर्गं सुमर्गं लोकं सुमर्गमिति सुवाहायम् लोकमायन् आयुर्यज्ञस्य यज्ञस्य व्यर्थेन व्यर्थेनासुरान् व्यर्थेनेति व्यर्धेन असुरान् पराः पराभावयन् प्रभावयन्निति इति यद् यत्खलु खलु वै वैयज्ञस्य यज्ञस्य समर्थम् समर्थं तत् समर्थमिति समृद्धम् तद्यजमानस्य यजमानस्य यत् यद्व्यर्थम् व्यर्थं तद् व्यर्थमिति व्यर्थम् तद्भ्रातृव्यस्य यो वै वै दशमे दशमे अहन् अहन्नविवाक्ये अविवाक्य उपहन्यते अविवाक्ये इत्यविवाक्ये उपहन्यते सः उपहन्यत इत्युपहन्यतेः स एव तेजे ये बाह्याः बाह्यादृषीतवः दृशीतव स्युः शिस्ते ते विभ्रूयुः ब्रूयुर्यदि यदि तत्र तत्र न विन्देयुः विन्देयुरन्दस्य तत् अन्तःसदसाद्व्युच्यम् अन्तःसदसादिव्यन्तः सदसाद् व्यच्यम् यदि व्युच्यमिति विमुच्यम् यदि तत्र तर्तन न विन्देयुः विन्देयुर्गृहपतिना गृहपतिना व्युच्यम् गृहपतिनेति गृहपतिना व्युच्यम् तत् योच्यमिति विमुच्यम् तद्व्युच्यम् व्युच्यमेव योच्यमिति विवच्यम् एवाथ अथ वै वा सर्पराज्ञ्यार्भे सर्पराज्ञि सर्पराज्ञ्याः लड्भिरुदृग् सर्पतः सर्पतो राज्ञी राज्ञीवै वा किञ्च चार्चन्ति अर्चन्ति यद् यदास्तेन तेनेयम् इयम् सर्पराज्ञी सर्पराज्ञी रे सर्पराज्ञीति सर्पराज्ञी ते यत् यदेव एव किम् किञ्च शभाचा वाचा नृचुः आनृचुर्यत् यदतोधि अतोध्यर्चितारः अर्चितारस्तत् तदुभयम् उभयमाप्वा आप्त्वावरुध्य अवरुध्योत् अवरुध्येत्यवारुध्य उत्तिष्ठाम तिष्ठामेति इति ताभिः ताभिर्मनसा मनसा स्तुमते स्तुमतेन न वै वा इमा इमामश्वरथः अश्वरथो अश्वर न अश्वरथ इत्यश्वार्थः अश्वतरीरथः अश्वतरीरथः सद्यः अश्वतरीरथ इत्यश्वतरीरथः सद्यः पर्याप्तुम् पर्याप्तुमर्हति पर्याप्तुमिति परी आप्तुम् मनो वै वा इमाम् इमाकम् सद्यः सद्यः पर्याप्तुम् पर्याप्तुमर्हति पर्याप्तुमिति अर्हति मनः मनःपरिभवितुम् परिभवितुमथ परिभवितुमिति परिभवितुम् अथ ब्रह्म ब्रह्म वदन्ति वदन्ति परिमिताः परिमिता वै परिमिता इति परिमिताः वा ऋचः रुचः परिमितानि परिमितानि सामानि परिमितानीति परिमितानि सामानि परिमितानि परिमितानि यजोगुंषि परिमितानीति एतस्यैव एवान्तः अन्तो न नास्ते अस्ति यत् यद्ब्रह्म ब्रह्म तत् तत्प्रतिगणते प्रतिगृणत आ प्रतिगणत इति प्रतिगणते आ चक्षीद चक्षीदसः सप्रतिकरः प्रतिकर इति प्रतिकरः ब्रह्मवादिना वदन्ति ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति किम् किं द्वादशाहस्य द्वादशाहस्य प्रथमेन द्वादशाहस्येति द्वादशाहस्य प्रथमेनाह्नाः एत इन्द्रियम् इति किम् किम् द्वितीयेन द्वितीयेनेति इति प्राणान् प्राणानन्नाद्यम् प्राणान् च प्राणान् अन्नाद्यमिति इति किम् किम् तृतीयेन तृतीयेनेति इति त्रीन् इमान् लोकान् लोकानि इति किम् किञ्चतुर्थेन चतुर्थेनेति इति चतुष्पदः चतुष्पदः स्पशून् चतुष्पदः इति पशूरिति यदि किम् किम् पञ्चमेन पञ्चमेनेति इति पञ्चाक्षराम् पञ्चाक्षराम् पङ्क्तिम् पञ्चाक्षरामिति पञ्चाक्षराम् पङ्क्तिमिति यदि किम् इगुम् षष्ठेनेति यदि षड् षडतोनिति इति किम् इगुम् सप्तमेन सप्तमेनेति इति सप्तपदाम् सप्तपदाघुषकरीम् सप्तपदामिति सप्तापदाम् षकरीमिति यदि किम् किमष्टमेन अष्टमेनेति इत्यष्टाक्षराम् अष्टाक्षराम् गायत्रीम् अष्टाक्षरामित्यष्टाक्षराम् गायत्रीमिति इति किम् किन्नवमेन नवमेनेति इति त्रिवृतम् त्रिवृतगस्तोमम् त्रिवृतमिति त्रिवृतम् स्तोममिति इति दशमेनेति इति दशाक्षराम् विराजम् दशाक्षरामिति दशाक्षराम् विराजमिति विराजमिति इति किम् किमेकादशेन एकादशेनेति इत्येकादशाक्षराम् एकादशाक्षरान् द्रष्टुभम् एकादशाक्षरामित्येकादशाक्षराम् द्रष्टुभमिति इति किम् किन् द्वादशेन द्वादशेनेति इति द्वादशाक्षरान् द्वादशाक्षरान् जगतिम् द्वादशाक्षरामिति द्वादशाक्षराम् जगतीमिति इत्येतावत् एतावद्वै वा अस्ति अस्ति यावत् यावदेतत् एतद् यावत् यावदेव एवास्ति अस्ति तत् तदेषाम् येषाम् वृन्ते वृन्द इति वृन्ते एष वै वा आप्तः आप्तो द्वादशाह द्वादशाहो यत् इति द्वादशाहः यत्रयोदशरात्रः त्रयोदशरात्रः समानम् त्रयोदशरात्र इति त्रयोदश रात्रः समानगं हि ह्येतत् रायनीयश्च रायनीय इति प्रा अयनीयः चोदयनीयः दयनीयश्च दयनीय इत्युदनीयः च त्र्यतिरात्रः त्र्यदिरात्रो भवति त्र्यदिरात्र इति त्र्यतिरात्रः लोदित्रयः त्रय इमे इमे लोकाः लोका येषाम् एषाम् लोकानाम् लोकानामाप्त्यै आप्त्यै प्राणः प्राणो वै प्राण इति अतिरात्रो व्यानः अतिरात्र व्यानोद्वितीयः व्यान इति अनः द्वितीयोपानः अपानस्तृतीयः अपान इत्यपानः तृतीयः प्राणापानोदानेषु प्राणापानोदानेष्वेव प्राणापानोदानेष्वि प्राणापान उदानेषु एवान्नाद्येः अन्नाद्ये प्रति अन्नाद्यैत्यन्नाद्येः प्रतिष्ठन्ति तिष्ठन्ति सर्वम् सर्वमायुः आयुर्यन्ते इे एवम् एवम् विद्वाकंसः त्रिद्वागुंस त्रयोदशरात्रम् त्रयोदशरात्रमासते त्रयोदशरात्रमिति त्रयोदश रात्रम् आसते तत् ददाहुः राहुर्वाग् वाै वा एषा एषा वितता वितता यत् विधते द्वितताः वादशाह द्वादशाहस्ताम् द्वादशाह इति द्वादशाहः तां विच्छिन्युः छिन्युर्यत् मध्येऽतिरात्रम् अतिरात्रम् कुर्युः अतिरात्रमित्यति रात्रम् कुर्युरुपदासुगा उपदासुगा भाग, गृहपतेः पदासुगेत्युपादासुगा गृहपतेर्वाग् गृहपतेरिति गृहपतेः वाक्स्यात् स्यादुपरिष्टात् उपरिष्टाच्छन्दोमानाम् रुबरिष्टा छन्दोमानाम् महावृतम् छन्दोमानामिति छन्दहामानाम् महाव्रतम् कुर्वन्ति महाव्रतमिति महाव्रतम् कुर्वन्ति सन्तताम् सन्ततामेव सन्ततामिति सन्तताम् एव वाचम् वाचमव अपरुन्धते रुन्धते अनुपदासुगा अनुपदासुगा गृहपतेः अनुपदासुगेद्गनुपदासुगाः गृहपतेर्वाग् गृहपतेरति गृहपतेः वाग्भवति भवति पशवः पशवो वै वै छन्दोमाह छन्दोमा इति छन्दहामाह अन्नम् महाव्रतम् महाव्रतम् महाव्रतमिति महाभ्रतम् यदुपरिष्टात् उपरिष्टाच्छोमानाम् छन्दोमानाम् महाव्रतम् छन्दोमानामिति सन्दोमानाम् महाव्रतम् कुर्वन्ति महाव्रतमिति कुर्वन्ति पशुषु पशुषु चैव एवान्नाद्ये अन्नाद्ये च अन्नाद्यैत्यन्नाद्ये च प्रति प्रतिष्ठन्ति आदित्या कामयन्ता रामयन्तोभयोः उभयोर्लोकयोः लोकयोरुध्वयाम ऋध्वयामेति इति ते तयेतम् एतम् चतुर्दशरात्रम् चतुर्दशरात्रमपश्यन् चतुर्दशरात्रमिति चतुर्दश तमा आहरन् अहरन्देन तेनायजन्त अयजन्त ततः ततो वै वै ते उभयोर्लोकयोः लोकयोरार्धवन् लोक आर्धवन्नस्मिन् अस्मिङ्गीश्च चामुष्मिन् अमुष्मिग् तये य एवम् एवम् विद्वागुंसः विद्वागुंसश्चतुर्दशरात्रम् चतुर्दशरात्रमासदे चतुर्दशरात्रमिति चतुर्दशरात्रम् आसत उभयोः उभयोरेव एव लोकयोः लोकयोर्रुद्ध्वमन्दि ऋद्ध्वमन्त्यस्मिन् अस्मिङ्गामुष्मिन् अमुष्ण्यश्चतुर्दशरात्रः चतुर्दशरात्रो भवति चतुर्दशरात्र इति चतुर्दश रात्रः भवति सप्त सप्त ग्राम्याः ग्राम्या ओषधयः ओषधयः सप्त सप्तारण्याः आरण्या उभयीषाम् उभयीषामवरुध्यै अवरुध्यै यत् अवरुध्या इत्यपाध्यैः यत्प्राचीनानि प्राचीनानि पृष्ठानि पृष्ठानि भवन्ति भवन्त्यमुम् अमुमेव एव तैः तैर्लोकम् लोकमभि लोकम अभिजयन्ते जयन्ते यत् यत्प्रतीचीनानि प्रतीचीनानि पृष्ठानि पृष्ठानि भवन्ति भवन्तीमम् इममेव देवतैः तैर्लोकम् लोकमभि अभिजयन्ति जयन्ति त्रयस्त्रिपुंशौ त्रयसृगुंशौ मध्यतः त्रयस्त्रिगुंशाविधित्रयः त्रिगुंशौ मध्यतस्तोमोः स्तोमो भवतः भवतः साम्राज्यम् साम्राज्यमेव साम्राज्यमिति साम्राज्यम् एव अधिराजो गच्छन्ति अधिराजौ भवतः अधिराजा वित्यधिराजौ भवतोऽधिराजाः अधिराजा एव अधिराजा इत्यधिराजाः एव समानानाम् समानानाम् भवन्ति भवन्तिति रात्रौ अधिरात्रावभिदः अधिरात्रावित्यधिरात्रौ अभितो भवतः भवतः परिगृहेद्यै परिगृहेद्या इति परिगृहेद्य प्रजापतिः स्वर्गम् प्रजापतिरिति प्रजापतिः स्वर्गम् लोकम् स्वर्गमिति स्वभायम् लोकमयीत् अयि तम् तम् देवाः देवानु अन्वायन् आयन्तान् तानादित्याः आदित्याश्च च वृषवः पशवश्च सानो अन्वायिम् जिन, आम्बे ते देवाः देवा अब्रुवन् देवा अब्रुवनयान् यान् यान पशून् पशूनुपाजीविष्म उपाजीविष्मते उपाजी उपाजीविष्मेत्युपाजीविष्म अ इमे इमेन्वाग्मन् अन्वाग्मन्नि अन्वाग्मन्नित्यनो आग्मन् इति तेभ्यः तेभ्यः एतम् एतम् चतुर्दशरात्रम् चतुर्दशरात्रम् प्रति चतुर्दशरात्रमिति चतुर्दशाराद्रम् प्रत्यौहन् औहन्ते तादित्याः आदित्याः पृष्ठैः पृष्ठैः सुवर्गम् स्वर्गम् लोकम् स्वर्गमिति स्वहागम् लोकमा आरोहन् अरोहन् ग्यहाभ्याम् त्र्यहाभ्यामस्मिन् ग्र्यहाभ्यामिति त्रि अहाभ्याम् अस्मिल्लोके लोके पिशोन् पशवम् प्रति प्रत्यौहन् अहन् पृष्ठैः पृष्ठैरादिद्याः आदित्या अमुष्मिन् अमुष्मिन्लोके लोकार्ध्वन् आर्ध्वन् त्रिहाभ्याम् त्रिहाभ्यामस्मिन् त्रिहाभ्यामिति त्रि अहाभ्याम् अस्मिन् लोके लोके पशवः अशवोये यदेवम् एवम् विद्वाकंसः यद्वाकंसश्चतुर्दशरात्रम् चतुर्दशरात्रमासदे चतुर्दशरात्रमिति चतुर्दश आसद उभयोः उभयोरेव एव लोकयोः लोकयोरुद्धवन्ति ऋद्ध्ववन्त्यस्मिन् अस्मिग्रिश्च चामुष्मिन् अमुष्मिग्श्च चतुष्ठैः पृष्ठैरेव एवामुष्मिन् अमुष्मिन्लोके लोकरुद्ध्वन्ति ऋध्वन्ति त्र्यहाभ्याम् त्रिहाभ्यामस्मिन् त्रिहाभ्यामिति त्रि अस्मिन् लोके लोके ज्योतिः ज्योतिर्गौः नौरायुः आयुरिति इति त्र्यहः त्र्यहौ भवति त्र्यः इति त्र्यहः भवतीयम् इयम् भवती वाव वावज्योतिः ज्योतिरन्तरिक्षम् अन्तरिक्षङ्गौः नौरसौ असावायुः इमानेव एव लोकान् लोकानभ्यारोहन्ति अभ्यारोहन्ति यद् अभ्यारोहन्ते आरोहन्ते यदन्यतः अन्यतः पृष्ठानि पृष्ठान्योधम् विविवध्यात् विध्ये मध्ये पृष्ठानि पृष्ठानि भवन्ति भवन्ति संविवधत्त्वाय संयुधत्त्वायौजः सविधत्वायैति सविधात्त्वाय ओजो वै वै वीर्यम् वीर्यम् पृष्ठानि पृष्ठान्योजः ओज एव एव वीर्यम् वीर्यम् मध्यतः मध्यतो दृशते रसते बृहद्रसन्तराभ्याम् रहद्रसन्तराभ्याम् यन्ति इयम् वाव वावरसन्तरम् रसन्तरमसौ रसन्तरमिति रथम् रथम् असौ बृहत् बृहदाभ्याम् आभ्यामेव अथो अनयोः असो इत्यसोः अनयोरेव एव प्रति प्रतिष्ठन्ति तिष्ठन्त्येते एते वि एते इत्येते वै यज्ञस्य यज्ञस्याञ्जसायनी अञ्जसायनी श्रुती अञ्जसायनी इत्यञ्जसायनी श्रुती ताभ्याम् श्रुती श्रुती ताभ्यामेव एव सुवर्गम् सुवर्गम् लोकम् स्वर्गमिति सुवहागम् लोकयन्ति किन्दि पराञ्चः पराञ्चो वि वा एते एते सुवर्गम् सुवर्गम् लोकम् स्वर्गमिति सुवहागम् लोकमभ्यारोहन्ति अभ्यारोहन्ति ये अभ्यारोहन्तेभ्यारोहन्ते हे प्राचीनानि प्राचीनानि पृष्ठानि पृष्ठान्युपयन्ते उपयन्त्यप्रत्यङ् उपयन्ते इत्युपायन्ते प्रत्यङ्त्र्यहः त्र्यहो भवति क्रियः इति त्रियः भवति प्रत्यवरोढे प्रत्यवरोढ्याथो प्रत्यवरोढ्या इति प्रति अवरूढ्ये अथो प्रतिष्ठित्यथो प्रतिष्ठित्या उभयोः प्रतिष्ठित्या इति प्रतिष्ठिति उभयोर्लोकयोः लोकयोर्रुद्ध्वा रुद्धोत् उत्तिष्ठन्ते तिष्ठन्ति चतुर्दश चतुर्दशैताः चतुर्दशेति चतुर्दश एतास्तासाम् तासां याः यादश दशदशा अक्षरा दशा अक्षरा विरा दशा अक्षराः विराडन्नम् विराटिति वीराट् अन्नम् विराट् विराट् विराजाः विराडिति वीराट् विराज इव विराजेति अवरुन्धते रुन्धते याः याश्चतस्रः चतस्रश्चतस्रः चतस्रो दिशः एव प्रति प्रतिष्ठन्ति तिष्ठन्तीति रात्रौ तदिरात्रावभितः इति रात्राविद्य रात्रौ अभिरो भवतः भवतः परिगृहीत्यै परिगृहीज्या इति परिगृहीत्य इन्द्रो वै वै सदृङ् सदृङ्गदेवताभिः सुदृङ्गिति सादृङ् देवताभिरासीत् आसीत् सः स न व्यावृतम् व्यावृतमगच्छत् व्यावृतमिति आवृतम् अगच्छत्सः स प्रजापतिम् प्रजापतिमव प्रजापतिमिति प्रजापतिम् उपाधावत् तथावत् तस्मै तस्मा एवम् एवम् पञ्चदशरात्रम् पञ्चदशरात्रम् प्रा पञ्चदशरात्रमिति पञ्चदश रात्रम् तमा आहरत् अहरतेन तेना यजत यजत ततः ततो वै वै सः सोऽ्याभिः देवताभिर्व्यावृतम् व्यावृतमगच्छत् व्यावृतमिति वि आवृतम् अगच्छद्ये एवम् एवम् विद्वागुंसः विद्वागुंसः पञ्चदशरात्रम् पञ्चदशरात्रमासते पञ्चदशरात्रमिति पञ्चदश आसते व्यावृतम् व्यावृतमेव व्यावृतमिति वि एव पाप्मनाः पाप्मना भ्रातृवेण भ्रातृवेण गच्छन्ति गच्छन्ति ज्योतिः गौरायुः आयुरिति इति त्र्यः त्र्यहो भवति त्र्यः इति त्र्यहः भवतीयम् इयम् वा प्रते, प्रते त्रम, वा ज्योतिः ज्योतिरन्तरिक्षम् अन्तरिक्षङ्गौः गौरसौ असा वायुः आयुरेषु एष्वेव एव लोकेषु लोकेषु प्रति प्रतिष्ठन्ते तिष्ठन्त्यसत्रम् वै वा एतद्विद् यदच्छन्दोमम् अछन्दोमयि अच्छन्दोममितिच्छन्दहामम् यच्छन्दोमाः छन्दोमा भवन्ति छन्दोमादि छृन्दहामाः भवन्ति तेन तेन सत्रम् सत्रम् देवताः देवता एव पृष्ठैः पृष्ठैरव अवरुन्धते रुन्धते पशून् पिशुरञ्छन्दोमैः सृन्दोमैरोजः छन्दोमैरिति छृन्दहामैः ओजो वै वै वीर्यम् वीर्यम् पृष्ठानि पृष्ठानि पशवः पशवः छन्दोमाः छन्दोमा ओजसि छन्दोमा इति छन्दहामाः ओजस्येव एव वीर्ये वीर्ये पशुषु पशुषप्रति प्रतितिष्ठन्ति तिष्ठन्ति पञ्चदशरात्रः पञ्चदशरात्रो भवति पञ्चदशरात्र इति पञ्चदश रात्रः वज्रः पञ्चदश इति पञ्चदशः वज्रो वज्रम् वज्रमेव एव भ्रातृव्येभ्यः भ्रातृेभ्यः प्रहरन्ति अतिरात्रा विद्य रात्रौ अभितो भवतः भवत इन्द्रियस्य इन्द्रियस्य परिगृहीत्यै परिगृहीत्यादिपरिगृहीत्यै इन्द्रो वै वै शिथिरः शिथिर इव इवाप्रतिष्ठितः अप्रतिष्ठितः आसीत् अप्रतिष्ठित इत्यप्रतिष्ठितः आसीत् सः सोऽसुरेभ्यः असुरेभ्योऽपिभेत् अबिभेत्सः स प्रजापतिम् प्रजापतिमुप प्रजापतिमिति प्रजापतिम् उपाधावत् अधावत् तस्मै तस्मा एतम् एतम् पञ्चदशरात्रम् पञ्चदशरात्रम् वज्रम् पञ्चदशरात्रमिति पञ्चदशरात्रम् वज्रम् प्रयच्छत् प्रयच्छत्तेन तेनासुरान् असुरान् त्वराभाव्य राभाव्य विजित्य पराभाव्येति पराभाव्य विजिद्य श्रियम् विजिद्येति विजित्य श्रियमगच्छद् अगच्छदग्निष्टुता अग्निष्टुता पाप्मानम् अग्निष्टुतेद्यग्निस्तुताः पाप्मानन्निः निरदहद अतः पञ्चदशरात्रेण पञ्चदशरात्रेण उजः पञ्चदशरात्रेणेति पञ्चदश रात्रेण ओजोबलम् बलमिन्द्रियम् इन्द्रियम् वीर्यम् वीर्यमात्मन् आत्मन्नये य एवम् एवम् विद्वांसः विद्वांसः पञ्चदशरात्रम् पञ्चदशरात्रमासते पञ्चदशरात्रमिति पञ्चदश रात्रम् आसते भ्रातृव्यान् भ्रातृव्यानेव एव पराभाव्य राभाव्य विजित्य पराभाव्येति पराभाव्य विजित्य श्रियम् विजिद्येति विजित्य श्रियम् गच्छन्ति गच्छन्त्यग्निष्टुता अग्निष्टुता पाप्मानम् अग्निष्टुतेत्यग्निस्तुताः पाप्माननिः निर्दहन्ते दहन्ते पञ्चदशरात्रेण पञ्चदशरात्रेण उजः पञ्चदशरात्रेणेति पञ्चदश रात्रेण रो जलम् बलमिन्द्रियम् इन्द्रियम् वीर्यम् वीर्यमात्मन् आत्मम् दधते दधत एताः एता एवपश्रव्याः श्रव्याः पञ्चदश पञ्चदशपि पञ्चदशेति पञ्चदश वा अर्धमासस्य अर्धमासस्य रात्रयः अर्धमासस्येत्यर्धमासस्य रात्रयोऽर्धमासशः अर्धमासषः संवत्सरः अर्धमासश इत्यर्धमासासः संवत्सरा आप्यते संवत्सरम् संवत्सरम् पशवः संवत्सरमिति संवत्सरम् पशवो लो अनुप्रजायन्ते जायन्ते तस्मात् तस्मात्पशव्याः पशव्या एताः एता एव सुवर्ग्याः सुवर्ग्याः पञ्चदश सुवर्ग्या इति सुभाग्याः पञ्चदशे इति अर्धमासस्य अर्धमासस्य रात्रयः अर्धमासस्य इत्यर्धमासस्य रात्रयोर्धमासशः अर्धमासशः संवत्सरः अर्धमासः इत्यर्धमासः संवत्सरः आप्यते संवत्सर इति संवत्सरः आप्यते संवत्सरः संवत्सरः सुवर्गः संवत्सर इति संवत्सरः स्वर्गो लोकः स्वर्ग इति सुभागः तस्मात् सुवर्ग्याः स्वर्ग्याय ज्योतिः स्मर्ग्या इति सुभाग्याः ज्योतिर्गौः गौरायुः आयुरिति इति त्र्यहः त्र्यहो भवति त्र्यः इति त्र्यहः भवतीयम् इयम् वाव गौरसौ रसा वायुः आयुरिमान् इमानेव एव लोकान् लोकानभ्यारोहन्ति अभ्यारोहन्ति यत् अभ्यारोहन्तीत्यभि आरोहन्ति यदन्यतः अन्यतः पृष्ठानि पृष्ठान्यस्य ध्ये मध्ये पृष्ठानि पृष्ठानि भवन्ति भवन्ति संयुधत्वाय संयुवधत्वायौजः स्वयुवधत्वायति सविवधात्वाय होजो वै वै वीर्यम् वीर्यम् पृष्ठानि पृष्ठान्यौजः होज एव एव वीर्यम् वीर्यम् मध्यतः मध्यतो दधते रथते रहद्रसन्धराभ्यानम् बृहद्रथन्तराभ्यामिति बृहत् रथन्तराभ्याम् यन्ति इयम् इयम् वाव वावरथन्तरम् रथन्तरमसौ रथन्तरमिति रथन्तरम् असौ बृहत् आभ्यामेव एव यन्ते यन्त्यथोः अथो अनयोः रथो इत्यथोः अनयोरेव एव प्रति प्रतिष्ठन्ते तिष्ठन्त्येते एते वै एते चेते वै यज्ञस्य यज्ञस्य अञ्जसायनी इत्यञ्जसायनी श्रीराभ्याम् श्रीरिश्री ताभ्यामेव एव सुवर्गम् स्वर्गम् लोकम् स्वर्गमिति सुवहागम् लोकम् यन्ति एते एते सुवर्गम् स्वर्गम् लोकम् लोकमभ्यारोहन्ते अभ्यारोहन्ति ये अभ्यारोहन्तेत्यभि आरोहन्ते ये प्राचीनानि प्राचीनानि पृष्ठानि पृष्ठान्युपयन्ते उपयन्त्य प्रत्यङ्ग उपयुज्जे इत्युपयन्ते प्रत्यङ्गत्रयहः त्र्यहो भवति त्र्य इति त्रे अहः भवति प्रत्यवरोढ्ये प्रत्यवरोढ्याथोः प्रत्यवरोढ्या इति प्रदे अवरोढ्ये अथो प्रतिष्ठद्ये उभयोर्लोकयोः लोकयोर् लो रुद्ध्वा ऋध्वोर् उत्तिष्ठन्ति तिष्ठन्ति पञ्चदश पञ्चदशैताः पञ्चदशेति पञ्चादश एतास्तासाम् तासां याः यादश दशदशा अक्षरा दशा अक्षरा विराड् दशा अक्षरेति दशा अक्षरः विराडन्नम् विराडिति वीराड् अन्नम् विराड् विराड् विराजा विराडिति वीराड् विराजैव विराजयति अन्नाद्यमव अन्नाद्यमित्यन्नाद्यम् <indo> अवरुन्धते रुन्धते <jskal> याः याः <passwords> पञ्च पञ्चपञ्च पञ्चदिशः दिशो दिक्षो दिक्षवेव एव प्रति प्रतिष्ठन्ते तिष्ठन्तिति रात्रौ अतिरात्रावभिदः अतिरात्रावित्रौ अभिधौ भवतः भवत इन्द्रियस्य इन्द्रियस्य वीर्यस्य वीर्यस्य प्रजायैः प्रजायै पशूनाम् प्रजाया इति प्राजायैः पशूनाम् परिगृहीत्यै परिगृहीत्या इति परिगृहीत्यैः प्रजापतिरकामयत प्रजापतिरि प्रजापतिः नादः अन्नादः स्याम। अन्नादैत्यन्नादः स्यामिति सः स एतम् एतकम् सप्तदशरात्रम् सप्तदशरात्रम् अपश्यत् सप्तदशरात्रमिति सप्तदश रात्रम् अपश्यत्तम् तमा आहरत् अहरत्तेन तेना यजततः ततो वै वै सः सोऽहन्नादः अन्नादोऽभवत् अन्नादैत्यन्नादः अभवद्ये एवम् एवम् विद्वांसः विद्वागुंसः सप्तदशरात्रम् सप्तदशरात्रमासते सप्तदशरात्रमिति सप्तदश रात्रम् आसदे अन्नादाः अन्नादा एव अन्नादा इत्यन्नादाः एव भवन्ति भवन्ति पञ्चाः पञ्चाहो भवति पञ्चाः इति पञ्चा अहः भवति पञ्च पञ्चवै वा ऋतवः संवत्सर ऋतुषु संवत्सर इति संवत्सरः ऋतुष्वेव एव संवत्सरे संवत्सरे प्रति संवत्सर इति संवत्सरे प्रतिष्ठन्ति तिष्ठन्तिथोः अथो पञ्चाक्षरा अथो यद्यथोः पृञ्चाक्षरा पङ्क्तिः पञ्चाक्षरे त्रिञ्चाक्षराः पङ्क्तिः यज्ञः यज्ञो यज्ञम् यज्ञमेव एवाव अवरुन्धते रन्धते सत्रम् असत्रम् वै वा एतत् एतद्यत् यद छन्दोमम् न छन्दोमयत् न छन्दोममित्यछन्दहामम् यच्छन्दोमाः छन्दोमा तेन तेन सत्रम् सत्रम् देवताः एव पृष्ठैः पृष्ठैरव अवरुन्धते रुन्धते पशून् पशून् छन्दोमैः छन्दोमैरोजः छन्दोमैरिति छन्दहामैः ओजो वै वै वीर्यम् पृष्ठानि पशवः पशवः छन्दोमाः छन्दोमा ओजसि छन्दोमा इति छन्दोमाः ओजस्येव एव वीर्ये वीर्ये पशुषु पशुषप्रति प्रतिष्ठन्ति तिष्ठन्ति सप्तदशरात्रः सप्तदशरात्रौ सप्तदशरात्रैरि सब्दशः रात्रः भवति सब्ददशः सप्तदशः प्रजापतिः सप्तदश इति सब्दादशः प्रजापतिः प्रजापतेः प्रजापतिरदिप्रजापतिः प्रजापतैरात्यैः प्रजापतैरदिप्रजापतेः आप्त्या अधिरात्रौ अतिरात्रापभितः अतिरात्राविद्य रात्रौ अभितो भवतः भवतो अन्नाद्यस्य अन्नाद्यस्य परिगृहेति अन्नाद्यस्येत्यन्नाद्यस्य परिगृहीत्यादि परिगृहेतिः सा विराट् विराट् विक्रम्य विराट् इति विराट् विक्रम्यातिष्ठत् विक्रम्येति विक्रम्य अतिष्ठद्ब्रह्मणा ब्रह्मणा देवेषु देवेष्वन्नेन ते देवाः देवा अकामयन्त अकामयन्तोऽभयम् उभयपुंसम् संवृञ्जीमिहि वृञ्जीमहि ब्रह्म ब्रह्म च चान्नम् अन्नम् च चेति इति ते त एताः एताविघुंसतिम् विभुंसतिम् रात्रीः रात्रैरपश्यन् अपश्यन्ततः ततो वै वैते त उभयम् उभयपुंसम् अवृञ्जत ब्रह्म ब्रह्म चान्नम् अन्नम् चब्रह्मवर्चसिनः ब्रह्मवर्चसिनो अन्नादाः ब्रह्मवर्चसिन इति ब्रह्मवर्चसिनः अन्नादा अभवन् अन्नादा इति ब्रह्मादाः अभवन् ये एवम् एवम् विद्वागुंसः विद्वागुंस एताः आसते आसत उभयम् उभयमेव एव संवृन्दते वृन्दते ब्रह्म ब्रह्म च च षडब्रह्मवर्चसिनः ब्रह्मवर्चसिनो अन्नादाः ब्रह्मवर्चसिन इति ब्रह्मवर्चसिनः अन्नादा भवन्ति अन्नादा इत्युन्नादाः वै द्वे इति एते एते एते इत्येते विराजौ तयोः विराजाविधि विराजौ तयोरेव एव नानाः नानाप्रति प्रतिष्ठन्ति पुरुषः पुरुषादश दशहस्याः तस्या अङ्गुलयः अङ्गुलज्योतिषदशपद्याः पद्यायावान् यावानेव एव पुरुषः पुरुषस्तम् तमाप्त्वा आप्तो उत्तिष्ठन्ति तिष्ठन्ति ज्योतिः ज्योतिर्गौः गौरायुः आयुरिति इति त्र्यहाः त्र्यहा भवन्ति त्र्यः इति त्र्यहाः भवन्तीयम् इयम् वाव वावज्योतिः ज्योतिरन्तरिक्षम् गौरसौ सा वायुः आयुरिमान् इमानेव एव लोकान् लोकानभ्यारोहन्ति अभ्यारोहन्त्यभिपूर्वम् अभ्यारोहन्तेत्युभि आरोहन्ते अभिपूर्वम् त्र्यहाः अभिपूर्वमित्युभि पूर्वम् त्र्यः भवन्ति त्र्यः इति त्रि अहाः भवन्त्यभिपूर्वम् अभिपूर्वमेव अभिपूर्वमित्युभि पूर्वम् एव सुवर्गम् सुवर्गम् लोकम् स्वर्गमिति सुभागम् लोकमभ्यारोहन्ते अभ्यारोहन्त्य अभ्यारोहन्तेद्युभिः आरोहन्ते यदन्यतः अन्यतः पृष्ठानि पृष्ठान्य स्युः सुर्विविधम् विविवधज्ञ स्याद्विधम्मध्ये मध्ये पृष्ठानि पृष्ठानि भवन्ति भवन्ति सविवधत्वाय सुविधत्वायोजः सुधत्वायति सविवधात्वाय ओजो वै वै वीर्यम् वीर्यम् पृष्ठानि पृष्ठान्योजः ओज मध्यतः मध्यतोऽधरे बृहद्रसन्तराभ्याम् बृहद्रसन्तराभ्याम् यन्ति बृहद्रसन्दराभ्यामिति बृहदे रथन्तराभ्याम् यन्ति वावथन्तरम् रथन्तरमसौ रसन्तरमिति रथन्दरम् असौ बृहत् बृहदाभ्याम् आभ्यामेव येवयन्ति यन्त्यथोः तथो अनयोः अथो इत्यथोः अनयोरेव एव प्रति प्रतिष्ठन्ति तिष्ठन्त्येते एते वै एते इत्येते वै यज्ञस्य यज्ञस्याञ्जसायनि इञ्जसायनि श्रुति इञ्जसायनी इत्यञ्जसायनी श्रुती ताभ्याम् श्रुति इति श्रुति ताभ्यामेव एव सुवर्गम् सुवर्गम् लोकम् स्वर्गमिति सुवहागम् लोकयन्ति पराञ्चः पराञ्चोवि वा एते एते सुवर्गम् स्वर्गम् लोकम् सुवर्गमिति सुवभागम् लोकमभ्यारोहन्ति अभ्यारोहन्ति ये अभ्यारोहन्ति इत्यभि आरोहन्ति येऽ प्राचीनानि प्राचीनानि पृष्ठानि पृष्ठान्युपयन्ति उपयन्ति प्रत्यङ् उपयुन्तेत्युपयन्ति प्रत्यङ्क्र्यहः त्र्यहो भवति त्र्यः इति त्रियहः भवति प्रत्यवरोढे प्रत्यवरोढ्या इति प्रति अवरोढे अथो प्रतिष्ठित्यै अथो विद्यथोः प्रतिष्ठित्या उभयोः प्रतिष्ठित्या इति प्रतिष्ठित्यै उभयोर्लोकयोः लोकयोर्रुद्ध्वा ऋध्वो उत्तिष्ठन्ते तिष्ठन्तिति रात्रौ अतिरात्रावभितः अतिरात्रा रात्रौ अभितो भवतः भवतो ब्रह्मवर्चसस्य ब्रह्मवर्चसस्यान्नाद्यस्य ब्रह्मवर्चसस्य यदि ब्रह्मवर्चसस्य अन्नाद्यस्य परिगृहीत्यै अन्नाद्यस्येत्युन्नाद्यस्य परिगृहीज्यापरिगृहीज्यैः असावादित्यः आदित्यो अस्मिन् अस्मिन् लोके लोक आसीत् आसीत् तम् तम् देवाः देवाः पृष्ठैः पृष्ठैः परिगृष्य परिगृह्य सुवर्गम् परिगृह्येति परिगृष्य स्वर्गम् लोकम् लोकमगमयन् अगमयन् वरैः परैरवस्तात् अवस्ताद्परि पर्यगृह्णन् गृह्णन्निवा कीर्त्येन विवाहीर्त्येन सुवर्गे विवाहीर्त्येनेति दिवाकीर्त्येन स्वर्गे लोके सुवर्गेति सुभागे लोके प्रति प्रत्यस्थापयन् अस्थापयन् वरैः वरैः परस्तात् परस्ताद्परि पर्यगृह्णन् गृह्णन् पृष्ठैः पृष्टैरुपावारोहन् उपावारोहान् सः उपावारोहन्नित्युपावारोहन् स वै वा असौ असावादित्यः आदित्योऽमुष्मिन् अमुष्मिन्लोके लोके परैः परैरुभयतः उभयतः परिगृहीतः परिगृहीतो यत् परिगृहीत इति परिगृहीतः यत्पृष्ठानि पृष्ठानि भवन्ति भवन्ति सुवर्गम् सुवर्गमेव सुवर्गमिति सुभागम् एव तैः तैर्लोकम् लोकम् यजमानाः यजमानायन्ति परयैः परैरवस्थात् अवस्थाद्परि परिगृह्णन्ति गृह्णन्ति दिवाकीर्त्येन विवाहीर्त्येन सुवर्गे स्वर्गे लोके सुवर्ग इति सुभागे लोके प्रति प्रतिष्ठन्ते तिष्ठन्ति परैः परैः परस्ताद् परस्तात्परि परिगृह्णन्ति गृह्णन्ति पृष्ठैः पृष्ठैरुपावरोहन्ते उपावरोहन्ति यद् उपावरोहन्ते यद्युपावरोहन्ते यत्परे परे परस्ताद् परस्तान्न न स्युः स्युःपराञ्च पराञ्च सुवर्गाद् सुवर्गाल्लोकात् स्वर्गादि सुभागात् लोकान्निः निष्पद्येरन् दद्येरनैर् तदवस्तात् अवस्तान् स्युः स्युः प्रजाः प्रजानिः प्रजा इति प्राजाः निर्दहेयुः दहेयुरभिदः अभिदो दिवाकीर्त्यम् दिवाकीर्त्यम् परः परः सामानो भवन्ति परः सामान एव स्वर्ग इति सुहये एनाम् लोके लोक उभेदः उभेदः परि परिगृह्णन्ति गृह्णन्ति यजमानाः यजमानाः वै वै दिवाकीर्त्यम् दिवाकीर्त्यकम् संवत्सरः दिवाकीर्त्यमिति दिवाकीर्त्यम् संवत्सरः परः सामानः संवत्सर इति संवत्सरः परः परः सामानो भवन्ति परः सामान इति परः सामानः भवन्ति संवत्सरे संवत्सर एव संवत्सर इति संवत्सरे एवोभयतः उभयतः वै वै दिवाकीर्त्यम् दिवाकीर्त्यम् पार्श्वे दिवाकीर्त्यमिति दिवाकीर्त्यम् पार्श्वे परः सामानः पार्श्वे इति पार्श्वे परः सामानोऽभितः परः सामान इति परः सामानः अभितो दिवाकीर्त्यम् दिवाकीर्त्यम् परः सामानः दिवाकीर्त्यमिति दिवाकीर्त्यम् परः परः सामान इति परः सामानः भवन्ति तस्मात् तस्मादभितः अभिधौ पृष्ठम् पृष्ठम् पार्श्वे पार्श्वे भूयिष्ठाः पार्श्वे इति रहा गृह्यन्ते गृह्यन्ते भूयिष्ठम् भूयिष्ठकम् शस्यते शस्यते यज्ञस्य यज्ञस्यैव एव तत् तन्मध्यतः मध्यतो ग्रन्थिम् ग्रन्थिम् ग्रच्छनन्ति ग्रच्छनन्त्यभिस्रगुंसाय अविश्रगुंसाय सप्त अविश्रगुंसायेत्यपि स्रगुंसाय सप्त गृह्यन्ते गृह्यन्ते सप्त सप्त वै वैशीर्षण्याः शीर्षण्याः प्राणाः प्राणाःप्राणान् प्राणादिति प्राणाः प्राणानेव प्राणानिति प्राणान् एव यजमानेषु यजमानेषु दधति दधद्यत् यत्प्राचीनानि प्राचीनानि पृष्ठानि पृष्ठानि भवन्ति भवन्त्यमुम् अमुमेव एव तैः तैर्लोकम् लोकमभ्यारोहन्ति अभ्यारोहन्त्य अभ्यारोहन्तेत्यभि अभ्यारो आरोहन्ति यदिमम् इमम् लोकम् लोकम् न प्रत्यवरोहेयुः प्रत्यवरोहे युरिर् प्रत्यवरोहे युरिति प्रति अवरोहेयुः उद्वाह वामाद्येयुः माद्येयुरीषमानाः पिजमानाः प्रवाह वामीयेर्मेर् यत्प्रतीचीनानि प्रतीचीनानि पृष्ठानि पृष्ठानि भवन्ति भवन्तीमम् इममेव एवतैः पैर्लोकम् लोकम् प्रत्यवरोहन्ते प्रत्यवरोहन्त्यथोः प्रत्यवरोहन्ते इति अवरोहन्ते यथो अस्मिन् अथो इत्यतो अस्मिन्नेव एव लोके लोके प्रति प्रतिष्ठन्ति तिष्ठन्त्यनुन्माराय अनुन्मारायेन्द्रः अनुन्माराये जनुतो माताय इन्द्रो वै वा अप्रतिष्ठितः अप्रतिष्ठितः आसीत् अप्रतिष्ठिते च आसीत् सः स प्रजापतिम् प्रजापतिमुप प्रजापतिमिति प्रजापतिम् उपाधावत् धावत् तस्मै तस्मा एतम् एतमेकविंशतिरात्रम् एकविंशतिरात्रम् प्र एकविंशतिरात्रमित्येकविंशतिरात्रम् एक प्रायच्छत् अयच्छत्तम् तमा आहरत् अहरत्तेन तेनायजत अयजर्ततः ततो वै वै सह सप्रति प्रत्यतिष्ठत् अतिष्ठद्ये ये बहुयाजिनः बहुयाजिनप्रतिष्ठिताः बहुयाजिन इति बहु याजिनः अप्रतिष्ठिता स्युः अप्रतिष्ठिता इत्यप्रतिष्ठिताः स्युस्ते त एकविविंशतिरात्रम् एकविंशतिरात्रमासीरन् एकविंशतिरात्रमित्येकविंशतिरात्रम् आसीरम् द्वादश द्वादशमासाः मासाः पञ्च पञ्चर्तवः तथवस्त्रयः त्रय इमे इमे लोकाः लोका असौ असावादित्यः आदित्य एकविगुंशः एकविगुंश एतावन्तः एकविगुंश इत्येकः विगुंशः एतावन्तो देवलोकास्तेषु देवलोका इति देवलोकाः तेष्वेव प्रति यथापूर्वमिति यथा पूर्वम् प्रतिष्ठन्ति तिष्ठन्त्यसौ असावादित्यः आदित्यो न वि व्यरोचत अरोचतसः स प्रजापतिमिति प्रजापतिम् उपाधावत् तथावत्तस्मैः तस्मा एतम् एतमेकविंशतिरात्रम् एकविंशतिरात्रम् प्रा एकविंशतिरात्रमित्येकविंशतिरात्रम् प्रायच्छत् अयच्छत्तम् तमा आहरत् आहतेन एनायजत अयजत ततः ततो वै वै सः सो रोचत रोचतये एवम् एवम् विद्वागुंसः विद्वापुंसः एकविंशतिरात्रम् एकविंशतिरात्रमासते एकविंशतिरात्रमित्येकविंशतिरात्रम् आसते रोचन्ते रोचन्त एवैकविविंशतिरात्रः एकविंशतिरात्रो भवति एकविंशतिरात्र इत्येकविंशतिरात्रः भवति ऋग ऋग्वै वा एकविवंशः एकविवंशो रुचम् एकविंश इत्येकः एव गच्छन्ति पृच्छन्तिथोः अथो अप्रतिष्ठाम् अथो इत्यथोः प्रतिष्ठामेव प्रतिष्ठामिति प्रदेष्ठाम् एव प्रतिष्ठा प्रतिष्ठा हि प्रतिष्ठेति प्रदेष्ठा ह्येकविघुंसः एकविपुंसौति रात्रौ एकविगुंश इत्येका विपुंसः अतिरात्रावभितः रात्रौ अभितो भवतः भवतो ब्रह्मवर्चसस्य ब्रह्मवर्चसस्य परिगृहीत्यै ब्रह्मवर्चसस्येति ब्रह्मवर्चसस्य परिगृहीत्या इति परिगृहीत्यै अर्वाण्यज्ञः यज्ञः सन् सङ्क्रामतुमुष्मात् अमुष्मादधि अधि माम् मामभि अभीत्यभि अभी, ऋषीणाञ्जः यः पुरोहितः पुरोहित यदि पुरहाहितः निर्देवम् निर्वीरम् निर्देवमिजनिः देवम् निर्वीरम् कृत्वा निर्वीरमिजनिः वीरम् कृत्वा विष्कन्धम् विष्कन्धम् तस्मिन् विष्कन्धमिति वीस्कन्धम् तस्मिन् हीयताम् हीयताञ्जः योऽस्मान् अस्मान्द्वेष्टि द्वेष्टिदिद्वेष्टि श्रीरञ्ज्ञशमनम् यज्ञशमनम् कुसीदम् यज्ञशमनमिति यज्ञशमनम् कुसीदम् तस्मिन् तस्मिन् कीदतु कीदतु यः योऽस्मान् अस्मान् द्वेष्टि द्वेष्टिदिद्वेष्टि यज्ञयज्ञस्य यज्ञस्य यत् यत्तेजः तेजस्तेन तेजसम् सङ्क्राम क्राम माम् मामभि अभीत्यभि ब्राह्मणा ऋतुजः ऋतुजो देवान् यज्ञस्य यज्ञस्य तपसा तपसाते ते सव सवाहम् आह आहुवे हुवैदि हुवे इष्टेन पक्वम् पक्वमुप उपरे ते हुवे हुवे सव सवाहम् अहमित्यहम् सन्तेः ते वृञ्जे वृञ्जे सुकृतम् सुकृतपुंसम् सुकृतमिति सुकृतम् सम्प्रजाम् प्रजाम् पृशून् प्रजामिलित्प्राजाम् पृशोनिति पृशून् प्रैषान् सामिधेनीः प्रैषामिति प्र एषान् सामिधेनीराघारौ सामिधेनीरिति सामिधेनीः आघारावाज्यभागौ आघाराविद्याघारौ आद्यभागावाश्रुतम् आद्यभागाविद्याज्याभागौ आश्रितम् प्रत्याश्रुतम् आश्रितमित्याश्रुतम् प्रत्याश्रुतमा प्रत्याश्रुतमिति प्रति आश्रितम् आशृणामि शृणामि ते तैति ते प्रयाजानुयाजानिति प्रयाजा अनुयाजान् सृष्टकृतमिडाम् सृष्टकृतमिति सृष्टाकृतम् इडामाशिषः आशिषः आशिष इत्याशिषः आवृञ्जे वृञ्जे सुवः सुवरिति सुवः इन्द्रेण सोमेन सोमेन सरस्वत्या सरस्वत्या विष्णुना विष्णुना देवताभिः देवताभिरिति देवताभि याज्यानुवाक्याभ्यामुपयाज्यानुवाक्याभ्यामिति याज्यानुवाक्याभ्याम् उपते ते हुवे हुवे सव सवाहम् अहं यज्ञम् यज्ञमा आददे ददेते ते वषट्कृतम् वषट्कृतमिति वषटे कृतम् स्तुतकम् शस्त्रम् शस्त्रम् प्रतिकरम् प्रतिकरम् ग्रहम् प्रतिकरमिति प्रतिकरम् ग्रहमिडाम् इडामाशिषः आशिषः आशिष आशिषः आ वृञ्जे सुवः सुवरिति सुवः पत्नीसंयाजानुप पत्नीसंयाजाति पत्नीसंयाजान् उपते ते हुभे हुभे सव सवाहम् अहम् समिष्टयजुः समिष्टयजुरा समिष्टयजुरिति समिष्टायजुः आददे ददे तव तवेदि तव प्रशुं सुतम् सुतम् प्रोडाशान् प्रोडाशान् सवनानि सवनान्या ओत उत यज्ञम् यज्ञमिति यज्ञम् देवान्सेन्द्रान् सेन्द्रानुप सेन्द्रानिति सा इन्द्रान् हुपते ते हुवे हुवे सव सवाहम् अहमग्निमुखान् अग्निमुखान् सोमवतः अग्निमुखानित्यग्निमुखान् सोमवतो ये सोमवतैति सोमावतः ये च च विश्वे विश्वैति विश्वे भूतम् भव्यम् भव्यम् भविष्यत् भविष्यद्वषट् वषट्साः स्वाहा नमः नभर्साम सामयजोः यजुर्वषट् वषट्साः स्वाहानमः नमो गायत्री गायत्री त्रिष्टुब् त्रिष्टुब् जगति जगति वृषड् वषत्साः स्वाहानमः स्वाहा नमः न… पृथिवी पृथिव्यन्दरिक्षम् अन्तरिक्षम् द्योः द्यौर्वषड् वषट्साः वश्र्ण स्वाहानमः नमोऽग्निः अग्निर्वायोः वायुः सूर्यः सूर्यौवषण् वषट्साः स्वाहानमः नमः प्राणः प्राणोभ्यानः प्राण इति प्राणः अपानो वषट् अपान स्वाहा नमः नमोऽन्नम् अन्नम् कृषिः कृषिर्वृषिः वृष्टिर्वषट् वषट्साः स्वाहा नमः नमः पिता पुत्रः पौत्रः पौत्रो वषट् स्वाहा नमः नमो भूः भूर्भुवः भुवः सुवः स्वाहा नमः नम नमः आमे मे गृहाः गृहाभवन्तु भवन्त्वा आप्रजा प्रजामेः प्रजेलित्प्राजा मा आमा मा यज्ञः यज्ञाविशदु विशद वीर्यावान् वीर्यावानिति वीर्यावान् आपो देवीः देवीर्यज्ञ्याः यज्ञिया मा आविशन्तु विशन्तु सहस्रस्य सहस्रस्य मा भूमा भूमा मा प्रहासीत् हासीदिति हासीत् आमेः मे ग्रहः रहो भवतु भवत्वा आपुरोरुग् पुरोरुरुरुरुक्स्तुतशस्त्रे पुरोरुग इति पुरः ऋग स्तुतशस्त्रे मा स्तुतशस्त्रे इति स्तुताशस्त्रे मा आविशदाम् विशदाम् समीची समीचीति समीची आदित्या रुद्राः रुद्रा वसवः वसवो मे मे सहस्रस्य सहस्रस्य मा भूमा भूमा मा मा प्रहासीत् आमाह माग्निष्टोमः अग्निष्टोमाविशतु अग्निष्टोम विशतोक्त्यः उपक्त्यश्च चापि रात्रः अतिरात्रो माः अतिरात्र इत्यपि रात्रः मा आविशतु विशत्वापि शर्वरः आपि शर्वर इत्यापि शर्वरः इरो इरो इति जरः अह्नयाह सोहुता, सोहुता, सहस्ष्या, सहस्ष्या मा सुहृताः सुहृता आ आविशन्तु विशन्तुसहस्रस्य सहस्रस्य मा भूमा भूमा मा, मा, मा, मा, मा प्रहासीत् हासीदिति हासीत् अग्निना तपः तपो नो अन्वभवत् वाचा ब्रह्म ब्रह्म मणिनाः मणिनारूपाणि रूपाणीन्द्रेण इन्द्रेण देवान् देवान् वातेन वातेन प्राणान् प्राणान्सूर्येण प्राणानिप्राणान् सूर्येणद्याम् यान् चन्द्रमसा चन्द्रमसा नक्षत्राणि नक्षत्राणि यमेन यमेन पितॄन् भीद्रवन, पितॄन् राज्ञा राज्ञा मनुष्यान् मनुष्यान् फलेन फलेन नादेयान् ना नादेयान् जगरेण अजगरेण सर्वान् सर्पान् व्याघ्रेण व्याघ्रेण अरण्यान् आरण्यान् पशोन् पशोन् छ्येन श्येन पदत्रिणः पदत्रिणो वृष्णाः वृष्णाश्वान् अश्वान्वृषभेण वृषभेण गाः गाभस्तेन बस्तेनाजाः प्रजा वृष्टिनाः वृष्टिणा वीः रीर्व्रीहिणाः व्रीहिणान्नानि अन्नानि यवेन यवेन औषधीः ओषधी न्यग्रोधेन न्यग्रोधेन अवनस्पतीन् वनस्पतीदुम्बरेण उदुम्बरेण ऊर्जम् ऊर्जम् गायत्र्या गायत्र्या छन्दागुंसि छन्दागुंसि त्रिवृताः त्रिवृते स्तोमान् ब्राह्मणेन ब्राह्मणेन वाचम् वाचमिति वाचम् स्वाहाधिम् आधिमाधीताय आधिमित्याधिम् आधीताय स्वाहा स्वाहा स्वाहा स्वाहाधीतम् आधीतम् मनसे आधीतमित्याधीतम् मनसे स्वाहा स्वाहा स्वाहा मनः पुनः प्रजापतये स्वाहा प्रजापतये प्रजापतये स्वाहाकाय काय स्वाहा साहाकस्मै कस्मै स्वाहा स्वाहा कथमस्मै स्वाहा सा हारित्यै स्वाहा साहादित्यै अरित्यै मह्यै स्वाहा स्वाहारित्यै अरित्यै सुमृळीकायै सुमृळीकायै स्वाहा सुमृळीकाय इति सुमृडीकायै साहा सरस्वती सरस्वत्यै सरस्वद्दी बृहत्यै बृहत्यै सः साहा सरस्वती सरस्वद्दीपावकायै पावकायै सः साहा पूष्णे पूष्णे सः साहाष्णे पूष्णे प्रवृत्त्याय प्रवृत्त्या य सह प्रवृद्ध्याय यदि प्रावृथ्याय साहा पूष्णे नरन्धिषाय नरन्धिषाय स्वाः स्वाहा त्वष्ट्रे त्वष्ट्रे सह साहा त्वष्ट्रे त्वष्ट्रे तुरीवाय स्वाः स्वाहा तुष्ट्रे तुष्ट्रे पुरोपाय प्ररूपाय स्वाहा पुरोपायेति पुरोरूपाय स्वाहा विष्णवे विष्णवे स्वाहा स्वाहा विष्णवे विष्णवे निघुर्यपाय स्वाहा निघुर्यपायेति निघुर्यापाय स्वाहा विष्णवे विष्णवे निभूयपाय विभूयपायस्वाहा विभूयपायेति निभूयापाय स्वाहा सर्वस्मै सर्वस्मै स्वाहा स्वाहेति स्वाहा दद्भ्य स्वाहा दधेति तदभ्यः स्वाहा हनोभ्याम् हनोऽभ्यागस्वाहा हनोऽभ्याम् इति हनोभ्याम् स्वाहोष्ठाभ्याम् ओष्ठाभ्यागस्वाहा स्वाहा मुखाय मुखाय स्वाहा स्वाहा नासिकाभ्याम् नासिकाभ्यागस्वाहा स्वाहा कर्णाभ्याम् कर्णाभ्यागस्वाहा स्वाहा पारे पार इक्षवः इक्षवो वार्येभ्यः वार्येभ्यःपक्ष्मभ्यः पक्ष्मभ्यस्वाहा पक्ष्मभेदिपक्ष्यः स्वाहा वारे वार इक्षवः इक्षवः पार्येभ्यः पार्येभ्यःपक्ष्मभ्यः पक्ष्मभ्यस्वाहा पक्ष्मभेदिपक्षाभ्यः स्वाहा शीर्षे शीर्ष्णे सः सः भ्रोभ्य भ्रोभ्यः सः ललाडाय ललाडाय स्वः मूर्ध्मे मूर्ध्ने स्वः स्वाहा मस्तिष्काय मस्तिष्कायस्वाः स्वाहा केशवेभ्यः केशवेभ्यस्वाहा स्वाहा वहाय वहायस्वाः स्वाहा ग्रीवाभ्यः ग्रीवाभ्यस्वाहा स्कन्धेभ्यः स्कन्धेभ्यस्वाहा स्वाहा कीकसाभ्यः कीकसाभ्यस्वाहा स्वाहा पृष्टेभ्यः पृष्टेभ्यस्वाहाेभ्येतिपृष्टेभ्यः स्वाहा वालिस्याय वालस्यायस्वाः सः पार्श्वाभ्याम् पार्श्वाद्भ्यागस्वाहा स्वाहा गुंसाभ्याम्पुंसाभ्यागस्वाहा स्वाहा दोषभ्याम् दोषभ्यागस्वाहा दोषभ्यामिति दोषाभ्याम् सह बाहुभ्याम् बाहुभ्यागस्वाहा बाहुभ्यामिति बाहोभ्याम् सहाजङ्घाभ्याम् गन्धाभ्यागस्वाहा स्वाहाश्रोणीभ्याम् श्रोणीभ्यागस्वाहा श्रोणीभ्यामिति श्रोणीभ्याम् स्वाहोरुभ्याम् ओरुभ्यागस्वाहा ऊरुभ्यामित्यौरुभ्याम् स्वाहाीवद्भ्याम् अष्टीवद्भ्यागस्वाहा अष्टीवद्भ्यामित्यष्टीवदेभ्याम् स्वाहा जङ्घाभ्याम् जङ्घाभ्यागस्वाहा स्वाहा भजते भजते स्वाहा सः शिखण्डेभ्यः शिखण्डेभ्यः स्वाहा स्वाहा बालधानाय बालधानाय स्वाहा रेतसे रेतसे स्वाहा स्वाहा प्रजाभ्यः प्रजाभ्यस्वाहा प्रजाभ्यैति प्राजाभ्यः स्वाहा प्रजननाय प्रजननायस्वाहा प्रजननायति प्राजननाय स्वाहा पद्भ्यः पद्भ्यस्वाहा पद्भ्येति प्रगेभ्यः साहा शभेभ्यः शफेभ्यस्वाहा स्वाहा लोमभ्यः लोमभ्यस्वाहा लोमभ्येति लोमाभ्यः स्वाहा त्वदे तदे स्वाहा लोहिताय रोहिता यस्वाहा स्वाहांसाय मांसाय स्वाहा स्वाहा स्नावभ्यः स्नावभ्यस्वाहा स्नावभ्यैति स्नावाभ्यः स्वाहास्थभ्यः अस्थभ्यस्वाहा अस्थभ्यैत्यस्थाभ्यः स्वाहा मज्जभ्यः मज्जभ्यस्वाहा मज्जभ्यैति मज्जाभ्यः स्वाहाङ्गेयेभ्यः अङ्गेयेभ्यस्वाहा स्वाहात्मनेः आत्मने स्वाहा स्वाहा सर्वस्मै सर्वस्मै स्वाहा स्वाहेति स्वाहाताय स्वाहाजेताय त्यञ्जिताय स्वाहाजसक्ताय अञ्जिक्ताय स्वाहासक्ताय त्यञ्जी सक्ताय स्वाहा श्रीपदे श्रीपदे स्वाहा श्रीपदैरि श्रीपदे स्वाहा श्रुतिकगुदे श्रितिकगुदे स्वाहा श्रीकपदै श्रीकगुदे स्वाहा श्रुतिरन्धाय श्रुतिरन्ध्राय स्वाहा श्रुतिरन्धाय ति श्रितिरन्धाय सा ह श्रुतिपृष्ठाय श्रुतिपृष्ठा यस्वाः श्रुतिपृष्ठायति श्रुतिपृष्ठाय साः श्रुत्यगुंसाय श्रत्यगुंसायस्वाः श्रुत्यगुंसायेति श्रुतिपुंसाय साः पुष्पकण्णाय पुष्पकण्णाय स्वाः पुष्पकण्णायति पुष्पाकण्णाय साः श्रुत्योष्ठाय शच्चोष्ठाय स्वाः शत्योष्ठायैति श्रुतिवोष्ठाय साः श्रुतिभ्रवे श्रुतिभ्रवे स्वाहाः श्रुतिभ्रवेति श्रीभ्रवे सा हितिभसदे श्रितिभसले स्वाहा श्रितिभसद इति श्रीभसदे सातानुकाशाय श्वेतानुकाशाय स्वाहा श्वेतानुकाशाय इति श्वेतानुकाशाय साहाञ्जये स्वाहा साहा रामा यस्वाहाः स्वाहासिवे असिलग्वेस्वाहा असिदज्ञवेत्यवे सा कृष्णैताय कृष्णैता यस्वाः कृष्णैता येति स्वाहा रोहितैताय रोहितैता यस्वाः रोहितैता एति रोहिता एताय साहारुणैताय अरुणैता यस्वाः अरुणैतायेत्यरुणा एताय सा हेदृशाय कीदृशा स्वाहा कीदृशाय तादृशा यस्वाहा स्वाहा सदृशाय सदृशा यस्वाः स्वाहा विसदृशाय विसदृशा यस्वाः विसदृशाय दिविसदृशाय सुसदृशाय सुसदृशा यस्वाः स्वसदृशाय ऋषुसदृशाय स्वाहारूपाय रूपायस्वाहा स्वाहा सर्वस्मै सर्वस्मै स्वाहा स्वाहेतिस्वाहा कृष्णा यस्वाहा स्वाहा श्वेताय श्वेता पिशङ्गाय पिशङ्गा यस्वाहा स्वाहासारङ्गाय सारङ्गाय स्वाहा सः वरुणाय अरुणा यस्वाः गौराय गौरायस्वाः स्वभ्रवे बभ्रवेश्वः सः नगुलाय नगुलायस्वाः स्वाहा रोहिताय रोहिताय स्वाहा शोणाय शोणाय स्वाहा स्वाहा श्यामाय श्यामायस्वाहा स्वाहा श्यामाय यस्वाहा वागलाय स्वाहा स्वाहा स्वरूपाय स्वाहा स्वरूपाय दिसोरूपाय स्वाहा अनुरूपाय अनुरूपाय स्वाहा अनुरूपाय तिनोरूपाय स्वाहा विरूपाय स्वाहा विरूपाय दिविरूपाय स्वाहा स्वरूपाय स्वाहा स्वरूपाय दिशारूपाय स्वाहा प्रतिरूपाय स्वाहा प्रतिरूपाय रिप्रतिरूपाय स्वाहा शपलाय स्वाहा स्वाहा कमलाय स्वाहा स्वाहा वृष्णये स्वाहा स्वाहा वृष्णिसक्ताय कृष्णिसक्ताय स्वाहाणिसक्ताय वृष्णिसक्ताय स्वाहा सर्वस्मै सर्वस्मै स्वाहा स्वाहेदस्वाहा स्वाहा ओषधेभ्ये औषधेभ्यः स्वाहा मूलेभ्यः मूलेभ्यस्वाहा तूलेभ्यः तूलेभ्यस्वाहा स्वाहा काण्डेभ्यः काण्डेभ्यस्वाहा स्वाहा वलुषेभ्यः वलुषेभ्यस्वहा स्वाहा पुष्पेभ्यः पुष्पेभ्यस्वहा स्वाहा फलेभ्यः फलेभ्यस्वाहा गृहीतेभ्यः गृहीतेभ्यस्वाहा गृहीतेभ्यः अगृहीतेभ्यस्वाहा स्वाहा अवपन्नेभ्यः अवपन्नेभ्य स्वाहा अवपन्नेभ्य इत्यमापन्नेभ्यः स्वाहा शयानेभ्यः शयानेभ्य स्वाहा स्वाहा सर्वस्मै सर्वस्मै स्वाहा स्वाहेति स्वाहा वनस्पतिभ्यः स्वाहा वनस्पदेभ्यनस्पतिभ्यः स्वः मूलेभ्यः मूलेभ्यस्वः स्वः तूलेभ्यः तूलेभ्यः स्वः स्वः स्कन्धोभ्यः स्कन्धोभ्यस्वः स्कन्धो स्कन्धाभ्यः स्वाहा शाखाभ्यः शाखाभ्यस्वः स्वः पर्णेभ्यः पर्णेभ्यस्वः स्वः पुष्पेभ्यः पुष्पेभ्यस्वः स्वः फलेभ्यः फलेभ्य स्वः गृहीतेभ्यः गृहीलेभ्य स्वः स्वाहा गृहीतेभ्यः अरुहृतेभ्यः स्वाहा स्वाहा उपपन्नेभ्यः उपपन्नेभ्यः स्वाहा अवपन्नेभ्यपन्नेभ्यः स्वाहा शयानेभ्यः शयानेभ्यः शिष्टाय स्वाहा अतिशिष्टाय अतिशिष्टाय स्वाहा परिशिष्टाय परिशिष्टायस्वाः परिशिष्टाय परिशिष्टाय स्वाहा सकम् शिष्टाय सकम् स्वाहा सकम् स्वाहोक्षिष्टाय उच्छिष्टाय स्वाहा उच्छिष्टाय द्विदृशिष्टाय स्वाहा रिक्ताय रिक्ताय स्वाहा स्वाहा रिक्ताय अरिक्ताय स्वाहा स्वाहा प्रविक्ताय प्रविक्ताय स्वाहा प्रविक्दाय रिप्रक्ताय स्वाहा सकं रिक्ताय सकं ऋक्ताय स्वाहा सकमृक्तायसं रिक्ताय स्वाहोद्रिक्ताय उद्रिक्दाय स्वाहाद्रिग्धाय द्विदोरिक्ताय स्वाहास्मै सर्वस्मै स्वाहा स्वाहे स्वाहाकाण्डे तृतीयः प्रश्नः समाप्तः